अथाष्टाविंशत्यधिकशततमः सर्गः शिरस्यञ्जलिमाधाय कैकेय्यानन्दवर्धनः बभाषे भरतो ज्येष्ठम् रामम् सत्यपराक्रमम् पूजिता मामिका मम तद्ददामि यथा त्वमददा मम धुरमेकाकि किशोरवद्गुरुम् भारम् न वारिवेगे वारिवेगेन महता भिन्नः सेतुरिवक्षरन् दुर्बन्धनमिदम् मन्ये राज्यच्छिद्रमसंवृतम् गतिम् खर इवाश्वस्य हंसस्येव च वायसः नान्वेतुमुत्सहे वीर तव मार्गमरिन्दमा यथा महानपिदुरारोहो दुरारोहो महास्कन्धः शीर्येत पुष्पितो भूत्वा न फलानि प्रदर्शयन् तस्य नानुभवेदर्थम् यस्य हेतोः सरोपितः एषोपमा महाबाहो त्वमर्थम् वेत्तुमर्हसि यद्यस्मान्मनुजेन्द्रत्वम् भर्ता भृत्या न शाधिः जगदद्याभिषिक्तम् राघव प्रतपन्तमिवादित्यम् मध्याह्ने दीप्ततेजसम् तूर्यसङ्घातनिर्घोषैः काञ्चीनूपुरणिस्वनैः मधुरैर्गीतशब्दैश्च प्रतिबुद्ध्यस्वशेष्व च यावदावर्तते चक्रम् यावती च वसुन्धरा तावत्त्वमिह लोकस्य स्वामित्वमनुवर्तय भरतस्य वच श्रुत्वा जयः तथेति प्रतिजग्राह निश सासने शुभे ततः शुघ्न वचना निपुणश्मर्धना सुखहस्ता सुशीघ्राश्च राघवते स्नाते लक्ष्मणे च महाबले सुग्रीवानंद्रे च राक्षसेन्द्रे विभीषणे विशोधित जट महार्हरस लोपेतस्तस्थौ तत्र श्रियाज्वलन् प्रतिकर्म च रामस्य कारयामा च वीर्यवान् लक्ष्मणस्य च लक्ष्मी वा निक्ष्वाकुकुलवर्धनः प्रतिकर्म च सीतायाः सर्वा दशरथस्त्रियः आत्मनैव तदा चक्रुर्मनस्विन्यो मनोहरम् ततो वानरपत्नीनाम् सर्वासामेव शोभनम् चकारयत्नात् कौसल्या प्रहृष्टा पुत्रवत्सला ततः शत्रुघ्नवचनात् सुमन्त्रो नाम सारथिः योजयित्वाभिचक्रामरथम् सर्वाङ्गशोभनम् अग्न्यर्कामलसङ्काशम् दिव्यम् दृष्ट्वा स्थितम् आरुरोह महाबाहू रामः परपुरम् जयः सुग्रीवो हनुमांश्चैव महेन्द्रसदृशद्युती स्नातौ दिव्यनिभैर्वस्त्रैर्जग्मतुः शुभकुण्डलौ सर्वाभरणजुष्टाश्च ययुस्ताः शुभकुण्डलाः सुग्रीवपत्न्यः सीता द्रष्टुम् नगरमुत्सुकाः अयोध्यायाम् च सचिवा दशरथस्य च पुरोहितम् पुरस्कृत्य मन्त्रयामासुरर्थवत् अशोको विजयश्चैव मन्त्रयन् रामवृद्ध्यर्थ वृद्ध्यर्थम् नगरस्य च सर्वमेवाभिषेकार्थम् जयार्हस्य महात्मनः कर्तुमर्हथ रामस्य यद्यन् मङ्गलपूर्वकम् इति ते मन्त्रिणः सर्वे सन्दिश्य च पुरोहितः नगरान्निर्ययुस्तूर्णम् रामदर्शनबुद्धयः हरियुक्तम् सहस्राक्षोरथमिन्द्र इवानघः प्रययौरथमास्थाय रामो नगरमुत्तमम् जग्राह भरतो रश्मीच्छत्रुघ्नश्छत्रमाददे लक्ष्मणो व्यजनम् तस्य मूर्ध् संवीजयम्स्तदा श्वेतम् च बालव्यजनम् परितस्थितः अपरम् चन्द्र सङ्काशम् विभीषणः ऋषिसङ्घैस्तदाकाशे देवैश्च स्तूयमानस्य रामस्य शुश्रुवे मधुरध्वनिः ततः शत्रुञ्जयम् नाम कुञ्जरम् आरुरोह महातेजाः सुग्रीवः प्लवकर्षभः नव वानराः मानुषम् विग्रहम् कृत्वा सर्वाभरणभूषिताः शङ्खशब्द प्रणादैश्च च निःस्वनैः प्रययौ पुरुषव्याघ्रस्ताम् पुरीम् हर्म्यमालिनीं। ददृशुस्ते समायांतं राघवं सपुरस्सरं। विराजमानं पुरःसरम् विराजमानम् वपुषारथे नातिरथम् तदा ते वर्धयित्वा काकुत्स्थम् रामेण प्रतिनन्दिदाः अनुजग्मर्महात्मानम् भ्रातृभिः परिवारितम् तथा प्रकृतिभिर्वृतः श्रिया विरुरुचे रामो नक्षत्रैरिव चन्द्रमाः स पुरोगामिभिः सूर्यैस्तालस्वस्तिकपाणिभिः प्रव्याहरद्भिर्मुदितैर्मङ्गलानि वृतो ययौ अक्षतम् जातरूपम् च वानराणाम् च तत्कर्म ह्याच चक्षेथमन्त्रिणा श्रुत्वा च विस्मयम् जग्मुरयोध्यापुरवासिनः वानराणाम् च तत्कर्म राक्षसानाम् च तद्बलम् विभीषणस्य संयोगमा च चक्षेथमन्त्रिणा द्युतिमानेतदाख्याय रामो वानरसंयुतः हृष्टपुष्टजनाकीर्णामयोध्याम् प्रविवेशसः ततो ह्यभ्युच्छ्रयम् पौराः पताकाश्च गृहे गृहे ऐक्ष्वाकाध्युषितम् रम्यमाससादपितुर्गृहम् अथा ब्रवीद्राजपुत्रो भरतम् धर्मिणाम् वरम् अर्थोपहितया वाचा मधुरम् रघुणम् दनः पितुर्भवनमासाद्य प्रविश्य महात्मनः कौसल्याम् च सुमित्राम् च कैकेयीमभिवाद्य तच्च मद्भवनम् श्रेष्ठम् साशोकवनिकम् महत् मुक्ता वैदूर्यसङ्कीर्णम् सुग्रीवाय निवेदय तस्य तद्वचनम् श्रुत्वा भरतः सत्यविक्रमः हस्ते गृहीत्वा सुग्रीवम् प्रविवेशतमालयम् ततस्तैलप्रदीपांश्च पर्यङ्कास्तरणानि च गृहीत्वा विविशुः क्षिप्रम् प्रचोदिताः उवाच च महातेज सुग्रीव राघवाज अभिषेकाये दूतापय प्रभो सौवर्ण्राण चुर्ना चतरो घटा दद क्षिप्र सुग्रीवरत्भूषिता था प्रत्यूष सतुर्ण सागरा भस पूर्णैर्घटैः प्रतीक्षध्वम् तथा कुरुतवानराः वानराः एवमुक्ता महात्मानो वानरा वारणोपमाः उत्पेतुर्गगणम् शीघ्रम् गरुडा इव शीघ्रगाः जाम्बवांश्च हनूमांश्च वेगदर्शी च वानरः वृषभश्चैव कलशाञ्जलपूर्णानथानयन् नदीशतानाम् पञ्चानाम् जलम् कुम्भैरुपाहरन् पूर्वात् समुद्रात् कलशम् जलपूर्णमथानयत् सुषेणः सत्त्वसम्पन्नः सर्वरत्नविभूषितम् वृषभो दक्षिणात् पूर्णम् समुद्राज्जलमानयत् रक्तचन्दन कर्पूरैः संवृतम् काञ्चनम् घटम् गवयः पश्चिमात् तोयमाजहारमहार्णवात् रत्नकुम्भेण महता शीतम् मारुत विक्रमः उत्तराच्च जलम् शीघ्रम् गरुडानिलविक्रमः आजहारस धर्मात्मा निलः सर्वगुणान्वितः ततस्तैर्वाणरः श्रेष्ठैरानीतम् प्रेक्ष्यतज्जलम् अभिषेकाय रामस्य शत्रुघ्नः सचिवैः पुरोहिताय श्रेष्ठाय सुहृद्भ्यश्च तत सयतो वृद्धो वसीो ब्राह्मण सह राम पीठे सह सीत न्यवेश वसीो वामदेव जाथ काश्यप का गौतमो विजयस्त अभ्यषिचरव्याघ्रसन्न सुगंधि सहस्राक्ष बसवो वासव यथा पृथ्वीग्भिर्ब्राह्मणैः पूर्वम् कन्याभिर्मन्त्रिभिस्तथा योधैश्चैवाभ्यषिञ्चस्ते सम्प्रहृष्टैः स नैगमैः सर्वौषधिरसैश्चापि दैवतैर्नभसि स्थितैः चतुर्भिर्लोकपालैश्च सर्वैर्देवैश्च सङ्गतैः ब्रह्मणा निर्मितम् पूर्वम् किरीटम् रत्नशोभितम् अभिषिक्तः पुरा येन मनस्तम् दीप्ततेजसम् तस्यान्ववाये राजानः क्रमाद्येनाभिषेचिताः सभायाम् हेमक्लृप्तायाम् शोभितायाम् महाधनैः रत्नैर्नानाविधैश्चैव चित्रितायाम् सुशोभनैः नानारत्नमये पीठे कल्पयित्वा यथा किरीटेन ततः पश्चाद्वसिष्ठेन महात्मना ऋत्विग्भिर्भूषणैश्चैव समयोक्ष्यतराघवः छत्रम् तस्य च जग्राह शत्रुघ्नः पाण्डुरम् शुभम् श्वेतम् च सुग्रीवो वा नरेश्वरः अपरम् चन्द्रसङ्काशम् राक्षसेन्द्रो विभीषणः मालाम् ज्वलन्तीम् वपुषा राघवाय ददौ वायुर्वासवेन प्रचोदितः सर्वरत्नसमायुक्तम् मणिभिश्च विभूषितम् मुक्ताहारम् नरेन्द्राय ददौ शक्र प्रचोदितः प्रजगुर्देव गम्भर्वा ननृतुश्चाप्सरोगणाः अभिषेके तदर्हस्य तदा रामस्य धीमतः भूमिः चैव फलवन्तश्च पादपाः गन्धवन्ति च पुष्पाणि बभूवू राघवोत्सवे सहस्रशतमश्वानाम् धेनूनाम् च तथा ददौ शतवर्षान् पूर्वम् द्विजेभ्यो मनुजर्षभः त्रिंशत्कोटीर्हिरण्यस्य ब्राह्मणेभ्यो ददौ पुनः नानाभरणवस्त्राणि महार्हाणि च राघवः अर्करश्मिप्रतीकाशाम् काञ्चनी मणिविग्रहा सुग्रीवायः स्रजम् दिव्याम् प्रायच्छन्मनुजाधिपः वैदूर्यमय चित्रे च चन्द्ररश्मिविभूषिते बालिपुत्राय धृतिमानङ्गदायाङ्गदे ददौ मणिप्रवरजुष्टम् तम् मुक्ताहारमणुत्तमम् सीतायै प्रददौ रामश्चन्द्ररश्मिसमप्रभम् अरजे वाससि दिव्ये शुभान्याभरणानि च अवेक्षमाणा वैदेही प्रदौ वायुसूनवे अवमुच्यात्मनः कण्ठाद्धारम् जनकनम् दिनी अवैक्षत सर्वान् भर्तारम् च मुहुर्मुहुः तामिङ्गितज्ञः सम्प्रेक्ष्य बभाषे जनकात्मजा प्रदेहि सुभगे हारम् यस्य तुष्टासि भामिनी अथ सा वायुपुत्राय तम् हारमसिते क्षणा तेजो धृतिर्यशोदाक्ष्यम् सामर्थ्यम् विनयोनयः पौरुषम् विक्रमो बुद्धिर्यस्मिन्नेतानि नित्यदा हनूमांस्तेन हारेण शुशुभे वानरऋषभः चन्द्रांशुचय गौरेण श्वेताभ्रेण यथा चलः सर्वे वानरवृद्धाश्च चान्ये वानरोत्तमाः वासोभिर्भूषणैश्चैव वा यथार्हम् प्रतिपूजिताः विभीषणोथ सुग्रीवो हनूमाञ्जाम्बवांस्तथा सर्वे वानरमुख्याश्च रामेणा क्लिष्टकर्मणा यथार्हम् पूजिताः सर्वे कामैरत्नैश्च पुष्कलैः प्रहृष्टमनसः सर्वे जग्मु यथा ततो द्विविधमैन्दाभ्याम् नीलायच च तपः सर्वान् कामगुणान् वीक्ष्य प्रददौ वसुधाधिपः दृष्ट्वा सर्वे महात्मानस्ततस्ते वानरृषभाः विसृष्टाः पार्थिवेन्द्रेण किष्यन्धाम् समुपागमन् सुग्रीवो वानरः दृष्ट्वा रामाभिषेचनम् पूजितश्चैव रामेण किष्किम् धान् प्राविशत्पुरी विभीषणोऽपि धर्मात्मा सहतैर्नैरऋतर्षभैः लब्ध्वा कुलधनम् राजालङ्काम् प्रायान्महायशाः स राज्यमखिलम् शासन्निहतारिर्महायशाः राघवः परमोदारः शशास परया उवाच लक्ष्मणम् रामो धर्मज्ञम् धर्मवत्सलः आदिष्ठधर्मज्ञमया सहेमाङ्गाम् पूर्वराजाध्युषिताम् बलेन तुल्यम् मया त्वम् पितृभिर्धृता याताम् यौवराज्येधुरमुद्वहस्व सर्वात्मना पर्यणुनीयमानो यदा न सौमित्रिरूपैति नियुज्यमानो भुव पौण्डरीकाश्वमेधाभ्याम् भाजपेयेन चासकृत् अन्यैश्च विविधैर्यज्ञैरयजत् पार्थिवात्मजः राज्यम् दश सहस्राणि प्राप्य वर्षाणि राघवः शताश्वमेधा नाजह्रे सदश्वान् भूरि दक्षिणान् आजानुलम्बि बाहुः स लक्ष्मणानुचरो रामः शशास राघवश्चापि धर्मात्मा प्राप्य राज्यमनुत्तमं ईजे बहुविधैर्यज्ञैः स सुहृज्ञाति बान्धवः न पर्यदेवन्विधवा न च व्यालकृतम् भयम् न व्याधिजम् भयम् चासीद्रामे राज्यम् प्रशासति निर्दस्युरभवल्लोको नानर्थम् कश्चिदस्पृशत् न ना प्रेतकार्याणि कुर्वते सर्वम् उदितमेवासीत् सर्वो धर्मपरोऽभवत् राममेवानुपश्यन्तो नाभ्यहिंसन् परस्परम् आसन् वर्षसहस्राणि तथा पुत्रसहस्रिणः निरामया विशोकाश्च रामे राज्यम् प्रशासति रामो रामो राम इति प्रजानामभवन्कथा रामभूतम् जगदभूद् रामे राज्यम् प्रशासति नित्यमूला नित्यफला स्तरवस्तत्र पुष्पिताः कामवर्षी च पर्जन्यः सुखस्पर्शश्च मारुतः ब्राह्मणाः क्षत्रिया वैश्या शूद्रालोभविवर्जिताः स्वकर्म सुप्रवर्तन्ते तुष्टा स्वैरेव कर्मभिः आसन् प्रजा धर्मपरा रामेशा सति सर्वे लक्षणसम्पन्नाः सर्वे धर्मपरायणाः दश वर्षसहस्राणि दश वर्षशतानि च भ्रातृभिः सहितः श्रीमान् रामो राज्यमकारयत, धर्म्यम् यशस्यमायुष्यम् राज्ञाम् च विजयावहम् आदिकाव्यमिदम् चार्षम् पुरा वाल्मीकिना कृतम् सदा लोके नरः प्रमुच्यते पुत्रकामश्च पुत्रान्वै धनकामो धनानि च लभते मनुजो लोके श्रुत्वा रामाभिषेचनम् महीम् विजयते राजा रिपूंश्चाप्यधितिष्ठति राघवेण यथा माता सुमित्रा लक्ष्मणेन च भरतेन च कैकेयी जीवपुत्रास्तथा स्त्रियः भविष्यन्ति सदानन्दाः पुत्रपौत्रसमन्विताः श्रुत्वा रामायणमिदम् दीर्घमायुश्च विन्दति रामस्य विजयं चेमं सर्वमक्लिष्टकर्मणः शृणोति य इदम् काव्यम् पुरा वाल्मीकिना कृतम् जितक्रोधो दुर्गाण्यतितरत्यसौ समागम्य प्रवासाम् ते रमन्ते सह बान्धवैः शृण्वन्ति य पुरा वाल्मीकिना ते प्रार्थितान् वरान् सर्वान् प्राप्नुवन्ति हराघवात् श्रवणेन सुराः सर्वे प्रीयन्ते सम्प्रशन्वता विनायकाश्च शाम्यन्ति गृहे तिष्ठन्ति यस्य वै विजयेतमहीम् राजा प्रवासी स्वस्तिमान भवेत् स्त्रियो रजस्वलाः श्रुत्वा पुत्रान् पूजयञ्च पठंश्चैनमितिहासम् पुरातनम् सर्वपापैः प्रमुच्येत दीर्घमायुरवाप्नुयात् प्रणम्यशिरसा नित्यम् श्रोतव्यम् क्षत्रियैर्द्विजात् पुत्रलाभश्च भविष्यति न संशयः रामायणमिदम् कृत्स्नम् आदिदेव महाबाह प्रभु साक्षाद्रामो रघुश्रेष्ठ शेषो लक्ष्मण उच्यपुरा वृत्तम भद्रमस्त वह प्रव्याहत विश्रभ्बल विष्णो प्रवर्धता दवा तथा रामायणस्य श्रवणे तृप्यन्ति पितरः सदा भक्त्या रामस्य ये चेमाम् संहिता मृषिणा कृता ये लिखन्ती ह वासस्त्रिविष्टपे कुटुम्ब वृद्धिम् धन धान्यवृद्धिम् स्त्रियश्च मुख्या सुखमुत्तमम् श्रुत्वा शुभम् काव्यमिदम् महार्थम् प्राप्नोति सर्वाम् भुवि आयुष्यमारोग्यकरम् यशस्यम् सौभ्रार्कम् बुद्धिकरम् शुभम् च श्रोतव्यमेतन्नियमेन सद्भिराख्यानमोजस्कर मृद्धिकामैः इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टाविंशत्यधिक युद्धकाण्डम् सम्पूर्णम्